नायं प्रतिबलो भीरो राक्षसापसदो मम सोढुं युधिपरिस्पन्दम् अथवा सर्वराक्षसाः पश्य बाहो सुवृत्तौ मे हस्तिहस्तनिभाविमौ ऊरुपरिघसङ्काशौ संहतं चाप्युरो महत् विक्रमं मे यथेन्द्रस्य सद्य द्रक्ष्यसि मा वं स्थाः पृथुश्रोणी म त्वा मामिह मानुषं हिडिम्बोवाच नावमन्ये नरव्याघ्र त्वामहं देवरूपिणं दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः वैशम्पायन उवाच तथा सञ्जल्पतस्तस्य भीमसेनस्य भारता वाच शुश्रावताः अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः श्रद्दामपूरितशिखं समग्रेन्दुनिभाननं सुभ्रूनासाक्षि के शान्तं सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम्